Yeah. Uh... गङ्गातरङ्गमणीय जटाकलापम् गौरी निरन्तर विभूषित वामभागम् नारायणप्रियमनङ्गमदापहारम् वाराणसी पुरपतिं भज वाचा मगोचरमनेगगुणस्वरूपम् वागीश विष्णुसुरसेवितपादपीठम् वामेन विग्रहवरेण कलत्रवन्तं वाराणसीपुरपतिं भज विश्वनाथम् भूताधिपं भुजगभूषणभूषितम् व्याघ्राजिनाम्बरधरं जटिलं त्रिनेत्रं। पाशाङ्कुशाभय वरप्रदशूलपाणिं वारा वाराणसी पुरपतिं भज विश्वनाथम् सुशोभित किरीट विराजमानम् बाले क्षणानल विशोषित पञ्चबाणम् नागाधिपारचित वासुरकर्णपूरम् वाराणसी पुरपतिं चाननं दुरितमत्तमदङ्गजाना नागात्मकम् दनुज पुङ्गवपन्नगाना दावानलं मरणशोकजराटवीना वाराणश्रीमुरपतिं तेजोपयम् सगुणनिर्गुणमद्वितीयम् आनन्दकन्दमपराजितमप्रमेयम् नागात्मकम् सकल निष्कलमात्मरूपम् वाराणसी पुरपतिम् भज विश्वनाथम् शाम्भिय परिहृत्य परस्य निन्द्रा वापे रतिं च सुनिवार्यमनः समाधौ हादाय कृत्कमलमध्यगतम् परेशम् वाराणसी पुरपतिम् व्रज पुरपतिम् भज विश्वनाथम्